श्रीमद्भागवतमहापुराणं पञ्चमस्कन्ध अथ द्वाविंशोऽध्यायः भिन्नभिन्नग्रहो की और और्गतिका वर्णन् राजवाज यदेतद्भगवत आदित्यस्य मेरुं ध्रुवं च प्रदक्षिणेन परिक्रामतु राशीनाम् अभिमुखम् प्रचलितं च प्रदक्षिणं भवतोर्पवर्णितम् अमुष्य कथं कथम् अनोमि मि मह इति स होवाच यथा कुलालचक्रेण भ्रमता श्रभ्रमतां तदाश्रयाणां पिपीडिकादीनां प्रदेशान्तरेष्वोपलभ्यमान् मानत्वादेवं नक्षत्रराशिभिः उपलक्षितेन कालचक्रेण ध्रुवं च प्रदक्षिणेन परिधावता स तदाश्रयाणां सर्यादीनां ग्रहाणां गतिरन्यैव नक्षत्रान्तरे रास्यंतरे चोपलभ्यमालत्वात् स एष भगवानादिपुरुष एव साक्षान्नारायणो लोकानां स्वस्तस्य आत्मानं त्रयी वयं कर्म विशुद्धिनिमित्तं कविभिः अपि च वेदेन विज्ञविज्ञास्य मालोद्वादशधा विभज्य षड्सु वसन्तादिषु आ ऋतुषुं अथोपजोषत्रिं जोषमित्रूं मृतुगुणान् विदधाति तमेतम् इह पुरषा त्रय्या विद्यया वर्णाश्रमाचारानुपथा उद्यावते कर्मभिरां नातै योगवितानै स श्रद्धया यजन्तो यथा गियः समाधिगच्छन्ति अलस एष आत्मालोकानां द्यावा पृथिव्योरन्तरेण न भोवले अस्य कालचक्रगतो द्वादशमासान् भुङ्क्ते राशिसंज्ञान् संवत्सरावयवान् मासः पक्षद्वयं दिवानक्तं नक्तं चेति द्वयमुपदिशन्ति यावता षष्ठमंसं भुञ्जीत स वै ऋतुरित्युपदिश्यते संवत्सरावयवः अथ च यावतार्धेन न भो मिथ्यां प्रचलति तं कालमैनमाचक्षते अथ च यावन्नभोमण्डलं सह द्या वा पृथिव्योर्मण्डलाभ्यां कार्ष्णेन स भुञ्जीत तं कालं संवत्सरं परिवत्सरम् इडावत्सरम् अनुवत्सरं वत्सरमिति भानुर्माद्यस्यै समगतिभिः समावनन्ति एवं चन्द्रमा अर्कगभस्तेभ्य उपरिष्टाल्लक्ष्ययोजनत् उपलभ्यमालोर्कस्य संवत्सरभुक्तिं पक्षाभ्यां मासभुक्तिं सपादक्षाभ्यां दिनेनैव पक्ष भुक्तिम् अग्रचारी द्रुततरगमनो भुङ्क्ते अथ चापुर्यमाणाभिश्च कलाभिरमराणां चीयमाणाभिश्च कलाभिः पितॄणाम् अहो अहोरात्राणि पूर्वपक्षा परं पक्षाभ्यां विसन्मान् सर्वजीवनिवहप्राणो देवस्यैकमेकं नक्षत्रं त्रिंशता मुहूर्ते भुङ्क्ते य एष षोडशकलःपुरुषो भगवान्मनोमयोन्नमयोमृतमयो देवपितृमनुष्यभूतपशुपक्षीसरीसृपवीरुधाम् प्राणाप्यायनं शीलत्वा सर्वमय इति वर्णयन्ति तत उपरिष्टात्रिलक्षयोजनतो नक्षत्राणि मेरुं दक्षिणेनैव कालायन ईश्वरयोजितानि सहाभिजिताष्टाविंशति तत उपरिष्टादृशनां द्विलक्षयो जनतमुपलक्ष्यते पुरतः पश्चात् सहैव वार्कस्य वा श्रेघ्रयामान्द्यसाम्याभिर्गतिविरर्गवच्चराञ्चरति लोकानां नित्यदानुकूल एव प्रायेण वर्षियश्चारेणानुमीयते स वृष्टिवेष्टम्भग्रहोपशमनः वुशनसा बुधो व्याख्यां तस्तत उपरिष्णाद् श्रीलक्षयो जनतो बुधः सोमसुत उपलभ्यमानः प्रायेण शुभं शुभकृद्यदार्काद् व्यतिरिच्येत ददाति वाताभ्रप्रायाणां वृष्ट्यादिभयमाससंसे अत ऊर्ध्वमङ्गारकोऽपि योजनलक्ष्यद्वितीय उपलभ्यमानत्रिभिस्तृभिप्रक्षैरेकैकशो राशिन्द्वादशानुभुङ्क्ते वर्तते प्राये नाशुभ प्रायेणाशुभग्रहो घशंस